पन्डाव दशकम् वराह अवतारम् स्वायम् भुवो मनुरथो द्रष्ट्वा दृष्ट्वा समये सलिले निमग्ना स्रष्टारमापचरणम् भवदम् कृसेव तुष्टाशयम् मुनिजनै सगसत्यलोके कष्टम् प्रजासु जदिमय्यवनी निमग्ना तानं सरोजभव कल्पय तत् प्रधाना इत्येवमेष कथितो मनुना स्वयम्बो म्बोरुहाक्षतवपादयुगम् व्यचिन्त्ये हाहा विभो जलमहम्यपिबम् पुरस्ताद् अत्या विमज्जति मही किमहम् करोमि इत्थम् त्वदङ्क्रियुगलम् चरणम् गतोऽस्य नासा पुटात् समभवत् कुम्बिसदृशसमजृम्बदास्त्वम् अब्रेतदाविधमुतीक्ष भवन्तमुश्चये विस्मेरताम्बिदिरगात्सगसूनुभीस्वै कोशावचिन्त्य महिमा किटिरुन्तितो मे नासा पुटात् भवेत जितस्य माया इत्थम् विचिन्तयति दातरि चैलमात्र सत्यो भवन् किल जगर्जितघोररूपम् तम् ते निनातमुपकर्ण्य जनस्तपस्था सत्यस्थिताश्च मुनयोनुवुर्भवन्तम् तत्स्तोऽस्त्रहर्षुलमना परिणद्यभूय तोयम् शयम् विपुलमूर्तिरवास्तरस्त्वं। ऊर्ध्वप्रसारि प्रोक्षिप्तवालति रवाङ्मुगगोरगो ण दूर्ण प्रतीर्ण जलत परिपूर्ण दक्षिणा स्तोत्रोन्मुनीम् शिशिरयन्नवदेरित वसुमतीम गवेषयस्त्वम् दृष्ट्वा तदैत्यहतकेन रसातलान्ते संवेशिताम् झटिति कूटकिटेर्विभो त्वम् आबादुकानविगणय्य सुरारिकेटान् मुस्ताङ्कुराङ्गित इवादिकपीवरात्मा उद्धूतगोरसलिलाज्जलदे रुदञ्चन् क्रीडावराकवपुरीश्वरपागिरोग